मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टी नैन् श्रीगणेशाय नमः मुद्गल उवाच इन्द्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुतः ऐरावतसमारूढो ययौ ताममरावतीम् विरोचनमुखैर्वीराैः संहृदो दैत्यपुङ्गवः शुशुभे तत्र तेजस्वीप्रभावेण बलेन च इन्द्रास्तने समासीनं तं ययुश्चाप्सरो गणाः गन्धर्वाश्चारणाश्चैव भयभीदाः समन्ततः सिषेविरे महाभागमत्सरं त्वमितौ सर्वभावेन तं पृष्टं चक्रु सर्वे स्वविद्यया देवोद्यानेषु सर्वेषु विचचारमहासुरः कुशलो देवभोगेषु भोगांश्च बुभुजे परान् देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयं दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने दत्तानि यानि स्थानानि स्थितास्ते नानारूपान् देवभोगान् बुभुजोस्तत्र संस्थिताः मत्सरं सेवमानास्ते ह्यदिदर्पेण संवृताः एकस्मिन् दिवसे भौम इन्द्रासनसमाश्रितः मत्सरो हर्षयुक्तः सन्दैत्यान् प्रोवाच गर्वितः मत्सरासुर उवाच भोभो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः ब्रह्मादयो महाभागा कथमत्रैव नागदाः नमस्यन्दिन देवेश माम्यदा यदा मत्सरान्विताः सर्वं मदं तदा संशयः मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः दूतं सम्प्रेषयामास मत्सर क्रोधसंयुतः गच्छ दूतत्रयाणां त्वं ब्रह्मादीनां पदेषु वै देवेशान्वदवाक्यं मे सावधानेन चेतसा दर्शनार्थं मत्सरस्य यान्दुदेवामया सह नो चेन्मत्सर दैत्येयस्ताडयिष्यति निश्चितं मत्सरस्य वचश्रुत्वा गतो दूतो बलान्वितः अन्धको नाम दैत्येन्द्रो महावेगसमन्वितः सत्यलोकेश धातारं न ददर्शमहाबलः शून्यां तां नगरीं वीक्ष्य गतो वैकुण्ठमादराद तत्रापि तादृशं दृष्ट्वा गदकैलासमेव सः तत्रानन्दयुधान् सर्वान् देवां स्तर्शीन् ददर्श च सभामध्यगतो दैत्यशिवचारै प्रवेशिदः आसनस्थेन सर्वेण आसने विनिवेशितः कैलासविभवं दृष्ट्वा विस्मिदो मानसे भवत सदानन्दमयं धन्यं मन्यमानस्वचेतसि पृच्छन्दं शङ्करं दैत्य उवाच बलगर्वितः तृणीकृत्य महेशानम् सर्वान् देवांस्तद्धान्तकः अन्धक उवाच मत्सरासुरवाक्यं च शृणुध्वं सुरसप्तमाः जित्वेन्द्रदेवनाथं च जादोकम् जगदीश्वरः अदो मद्दर्शनार्थं च भवन्तोपि सहानुगः ब्रह्मविष्णुश्च रुद्रश्च आगच्छन्तु मदन्तिकम् तस्माद्भवद्भिरद्यैव मया सह सुरेश्वरः आगन्तव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् अन्तकस्य वच श्रुत्वा शिवक्रोधसमन्वितः उवाच तं महादैत्यं मुखादग्निं समुद्धिरन् शिव उवाच किं मां वदसि पापिष्टतृणीकृत्य च यद्वचः मध्वरस्य प्रभावेण मत्सरो विजयी ध्रुवं यदाहं क्रोध संयुक्तस्तदा भस्ममयं कलं करिष्यामि न सन्देकः सासुरं मत्सरं खलु मत्सराज्ञावशोकं रे प्रजादो प्रजादोऽ सुराधम मत्वा त्वा मूर्ध संशयः गच्छदं मत्सरं दैत्यं वद वाणीं मयेजिदां नो चेत् त्वां भस्मसात्कुर्यां कुपितो कम्बलोत्तमः शिवस्य वदनं श्रुत्वा मत्सरं त्वन्थको ययौ कथयामास वृत्तान्तं विभवं वर्णयामास कैलासस्य यथा ब्रह्माण्डेन समं किञ्चित् कैलासस्य महासुराः अन्धकस्य वचक्रूरम् श्रुत्वा दैत्याः महाबलाः विरोचनमुप सर्वे मत्सरं क्रूरमब्रुवन् किं स्थितोऽसि महाबाहो ज्येषामस्त्वत्प्रसादतः देवत्रयं न सन्देह आज्ञां देह्य सुरेश्वर दैत्यानां वचनं धृत्वा तेजो युक्तं स मत्सरः उवाच क्रोधसंयुक्तस्थान् दैत्यान् हर्षयन्निव मत्सर उवाच मया तपः प्रभावेण प्राप्तं तेजो महाद्भुतं तत्र शम्भुर्वृधमानी स्वात्मानं मन्यतेऽर्थम् तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् तदायं जगदीशो वै मन्यते नान्यथा मया अध शम्भुं विजेष्यामस्तपस्थेजत्समन्वितः दर्पं हरिष्यामि वृथा ब्रह्मेदि मानिनं ब्रह्मवेदेषु कथितं निर्विकल्पकं तदेव सर्वमान्यं वै जगदीशतया बभौ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा ब्रह्मार्पणतया कर्मकृतं चेन्मुक्तिराप्यते अखिलं कर्मणा सृष्टं पालितं च प्रहीयते तत्र किं त्रैस्त्रिभिर्देवैः क्रियते कर्म जयः कर्मणाहं सृजाम्येव पालयामि हरामि च कर्माधीनं जगत् सर्वं स देवासुरमानुषम् एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः आययौ शङ्करस्थानमावेशेन समन्वितः नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः शिवचाराश्च तैः सर्वे पलायन्त च पीडिताः छिन्नभिन्नाङ्गदेहाश्च ययुशङ्करसन्निधौ ऊजुःसमागधो दैत्यसर्वैः साकं स मत्सरः ॐ तत्सदि श्रीमदान्त्ये श्रीमन मौद्गले, महापुराणे प्रथमे खंडे वक्रतुंडचरि समागमो नाम यहनिशोध्याय ओम।